श्रीहरे नमः अत एकादशोऽध्यायः मैत्रेय उवाच शरमः सद्विशेषाणाम् अनघोसंयुतः सदा परमानुः स विज्ञेयो नृणामैक्यभ्रमो यतः सत एव पदार्थस्य स्वरूपावस्थितयस्य यत् कैवल्यं परम महान् अविशेषो निरन्तरः एवं कालोऽप्यनुमितः सौक्ष्मे स्थौल्ये च सत्तमा समस्ता भुक्त्या भगवान् अव्यक्तो व्यक्त विभुः सकालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् सतो विशेषभुक्त्यस्तु सकालः परमो महान् अणुर्ध्वौ परमाणु स्यात् त्रसरेणस्त्रयः संमृतः जालार्करस्म्यवगतः कमेवानुपतन्नघात् त्रसरेणु त्रिकं भुङ्क्थेय तैस्त्रिभिस्तुलवः स्मृतः निमेशस्त्रिलवो ज्ञेय आम्नातस्ते त्रयक्षणः क्षणान् पञ्चविधो काष्ठां लघुता दश पञ्च च लघुं निवैष द्वादशार्थबलोन्मानं चतुर्भिश्चतुरङ्गुलैः स्वर्णमाक्षैकृतचित्रं यावत्प्रस्तजलप्लुतं यामाश्चत्रवारश्चत्वारो मर्त्यानामहनीबुभे पक्षपञ्चदशाहानी शुक् क्ल कृष्णश्च मानधा तयो समुच्चयो मा सः पितॄणां द्वौतावृतोक्षढयनं दक्षिणं चोतरं दिवे अयने साहनी प्राहुर्वत्सरो द्वादश स्मृतः संवत्सरः सतं रोणां परमायोर्निरूपितं ग्रहर्षधाराश्च ्रस्त परमाण्वादिना जगत् संवत्सरावसानेन पर्येत्य निमिषो विभुः संवत्सरः परिवत्सर इडावत्सर एव च अनुवत्सरो विदुरैवं प्रभाष्यते यसृज्य शक्तिमुरुदो पुंसो भ्रमाय दिवी धावती भूतभेदः कालाख्यया गुणमयं क्रतुभिर्वितन्वन् तस्मै बलिं हरत वत्सर पञ्चकाय पितुर उवाच पितृदेवमनुष्याणाम् आयुः परमितं स्मृतं परेषां गतिमाचक्ष्वं येस्यो कल्पान् बहिर्विदः भगवान् वेदकालस्य गतिं भगवतो ननु विश्वं विक्षषते धीरां योगराध्येन चक्षुषा मैत्रेय कृतं त्रेता च कलिश्चेति चतुर्युगं दिव्ये द्वादशभिर्वर्षे सावधानं निरूपितम् चत्वारि त्रीणि द्वे चैकं कृधादिषु यथाक्रमं सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च सन्त्यांसयोरन्तरेण यःकालसतसङ्ख्ययोः तमेवाहोर्युगं तज्ञा यो विधीय धर्मच् मनुजा कमर्तते स ये धर्मेण व्यतिदन वर्धत त्रिलोक्याुगस्रम बराब्रमणो दिव तेन निषातात ये निवाससान आरब्धो लोककल्पोनुवर्तते यावद्दिनं भगवतो मनोन्भुञ्जश्चतुर्दश स्वं स्वं कालं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिं मन्वन्तरेषु मनस्तध्वं श्यारुषयक्षुराः भवन्ति चैव सुरेशाश्चानुये च तान् एष दैनन्दिनः सर्गो ब्रह्मस्त्रैलोक्यवर्तनः तिर्यङ्निरूपितृदेवानां सम्भवो यत्र कर्मभिः मन्वन्तरेषु भगवान् बिप्रत्सत्त्वं स्वमूर्तिभिः मन्वादिभिरितं विश्वम् अवत्युदितपौरुषः तमो तमोमात्रम् उपादाय प्रतिसंवृद्धविक्रमः कालेन अनुगता शेष आस्ते तूष्णीं दिनात्यये तमेवान्वपि निशाया लोकाभूरातयस्त्रयः निर्मुक्त निर्मुक्तसशिभास्करम् त्रिलोक्यां दह्यमानायां सत्याशङ्कर्षणाग्निनां यान्त्योष्मणामहर्लोकाद्यजनं भृग्वादयोर्धिताः तावत् त्रिभुवनं सत्यं कल्पान्तैर्दितसिन्धवः प्लावयन्त्युक्कढाढोप चण्डवातेरितोर्मयः अन्तः स तस्मिन् सलिलाम् आस्तेनन्दासनो हरिः स्तूयमानो जनालयैः एवं विदरैहोरार्द्रे कालगत्योपलक्षितैः अपश्यतमिवास्यापि परमायोर्वयः सतं यदधर्मायुषस्तस्य परार्धमभिधीयते पूर्वः परार्धो बक्रान्तो ह्यपरोध्य प्रवर्तते पूर्वस्याधौ परार्धस्य ब्राह्मो नाम महान्भूत् कल्पो यत्राभवद्ब्रह्मा सब्दब्रह्मेति यं विदुः तस्यैव शान्ते कल्पो पूज्यं पात्ममभिचते यत्हरे नाभिसरस आसील्लोकसरोरुहम् अयं तु कथितकल्पो द्वितीयस्यापि भारध वाराहगिति विख्यातो यत्रासीत्सुकरो कालोयं कालोऽयं द्विपरार्धाज्ञो निमेषमुपचर्यते अव्याकृतस्यानन्तस्य कालोयं कालूयं परमाण्वाध्येर्विपरार्धान्त ईश्वरः नैवेशितुं प्रभोर्भूम्न ईश्वरो दाममानिना विकारैस्सखितो युक्तैर्विशेषादिभिरावृतः आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः दशोत्तराधिकैर्यत्र प्रविष्टपरमाणुवद् लक्ष्यते दर्गताश्चान्ये कोटिसौ ह्यण्डराशयः तधाहुरक्षरं ब्रह्म सर्वकारणकारणं विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते एकादशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द